सौतिरुवाच एतच्छ्रुत्वा प्रीयमाणाः समेता एतत्रा सन्पन्नगावीतमोहाः आस्तीके वै प्रीतिमन्तो बभूवुः ऊचुश्चैनं वरमिष्टं वृणीष्व भूयो भूयः सर्वशस्ते ब्रुवंस्तं किं ते प्रियं करवामाद्यविद्वन् प्रीता वयं मोक्षिताश्चैव सर्वे कामं किं ते करवा माद्यवत्सा आस्तीक उवाच सायं प्रातर्ये प्रसन्नात्मरूपा लोके विप्रामानवाय परेऽपि धर्माख्यानं ये पठेयुर्ममेदम् तेषां युष्मन्नैव किञ्चिद्भयं स्यात् तैश्चाप्युक्तो भागिनेयः प्रसन्नैः एतत्सत्यं सत्यं काममेवं वरं ते प्रीत्या कामितं सर्वशस्ते कर्तारस्मप्रवणा भागिनेया असितं चार्तिमन्तं च चा सुनीतं चापि अस्मरेत् दिवा वायदिवा रात्रौ नास्य सर्पभयं भवेत् यो जरत्कारुणातातो जरत्कारौ महायशाः आस्तीकः पन्नगान्योभ्य रक्षता। तं स्मरन्तं महाभाग न मां हिंसितुमर्हता गच्छ सर्पमहाविष जनमे जयस्य यज्ञान्ते स्मर आस्ति कस्य वचः श्रुत्वा न निवर्तते शतथा भिद्यते मूर्ध्नि शिंश वृक्षफलं यथा सौ तिरुवाच स एव मुक्तस्तु तदा द्वितेन्द्रः समागतैस्तैर्भुजगेन्द्रमुख्यैः सम्प्राप्य प्रीतिं विपुलां महात्मा ततो मनोगमनायाथ मोक्षयित्वा तु भुजगान् सर्पसत्राद्विजोत्तमः जगामकाले धर्मात्मा दिष्टान्तं पुत्रपौत्रवान् इत्याख्यानं मयास्तीकं यथावत्तव कीर्तितं यत्कीर्तयित्वा सर्पेभ्यो न भयं विद्यते क्व चेत् यथा कथितवान् ब्रह्मन् प्रमतिः पुत्रायरुरवे प्रीतः पृच्छते भर्गवोत्तम यद्वाक्यं श्रुतवांश्चाहं तथा च कथितं मया आस्ती कस्य कवेर्विप्रा श्रीमच्चरितमादितः श्रुत्वा धर्मिष्ठमाख्यानम् आस्तीकं पुण्यवर्धनं यन्मां त्वं पृष्टवान् ब्रह्म श्रुत्वा डुण्डुभभाषितं वेतु सुमहद् ब्रह्मन् कौतूहलमरिन्दम इति श्री महाभारते महाभार आदिपर्ण आस्तीकर्पसत्रे अष्टपंचाशतम